ॐ श्री परमात्मने नमः श्रीजगदम्बिकाय नमः अथ श्रीमद्देवी भागवतमापुराणे सप्तमस्कन्धे तृतीयोऽध्याय व्यास उवाच इति पप्रच्छतान् सर्वं सजा चिन्ता कुल तथा भज पृच्छेत् सुहृद्वर्गम् साम्ना चो्रतया पित् पीड्यमानं जनम् वीक्ष्य पितरं दुःखितं तथा विचिन्त्य शूरभेदं सा सुकन्याचेदमब्रवीत वने वयापितस्तत्र वल्मीकोऽपि रुधावृतः क्रीडन्त्या सुदृढो दृष्ट छिद्रद्वये समन्वितः तत्र खद्योत भद्दीप्तये ज्योतिषे वीक्षिते मयाय विद्धे महाराज पुनः खद्योत शङ्कयाय जलक्लिन्ना तदा शोचे मया धृष्टा पितल आहेति च श्रुत शब्दो मन्दो वल्मीकमध्यतः तदाहं विस्मिता राजन् किम् एतदिति शङ्कया न जाने किं मया विद्धम् तस्मिन् वल्मीकमण्डले राजा श्रुत्वा तु शर्यातिः सुकन्यावचनम् मृदु पुनैतत् हेलनं ज्ञात्वा वल्मीकम् क्षिप्रमभ्यगात् तत्रापश्च तपोवृद्धम् चवनं दुःखितं वृषम् स्फोटया मासेकम् मुनिदेहावृतं वृशं प्रणम्य दण्डव धूमौ राजा तं भार्गवं प्रति तुष्टाव विनयोपेत तम् उवाच पूताञ्जलिः पुत्र्या ममः भग क्रीडन्तज्ञानात् बालय ब्रह्मन् तत् चन्तुमर्हसि अक्रोधनाम् हि मुनयो भवन्ति ते मया श्रुतम् तस्मात् तमपि बालायः कन्तुमर्हसि साम्बतम् व्यासोवाच इति श्रुत्वा वचस्तस्य च वदो वाक्यमब्रवीत् विनयोपनतम् दृष्ट्वा राजानम् दुःखितम् पुरुषं। नुवाच राजन्नाहं कदाचिद्वै करोमि क्रोधमन्वपि न मया देव शप्तस्तम् दुहित्रा पीडने कृते ने मम चाद्य निरागतः तेन पापेन जानामि दुःखितस्त्वम् महीपते अपराधं परम् कृत्वा दे भक्त पूजन है सुखम लभेत यदि भविरा शिव स्वयं कि महे पाल नेत्रो जरावृत अंध से कक्क्य पार्थिव राजक सवा क्य क्षमस्य मुनिषा दोरय स्वक्रोधा अन्धोऽहं निर्जनो राजन् तपस्तत्तुं कथं क्षमहे तृदीयः सेवकः किं ते करिष्यन्ति मम प्रियं क्षमापयसि चेन् मां तं कुरु मे वचनं नृपे दे मे पिचर्याथम कन्या कमलोचनाषे मैं महाराजे पुत्र तहामते क्या चाहे सेवाष्यंते सुखम मे सै तव चति मयि राजेन्द्र सैनिक संचय है विचिन् मनसा भूपे कन्यादान सामचरे न छात्र दूषण किंचितापसोहम्व्रत वावाच शरियाचनमुनश्चिताय भवते, न दास्ते अथवा दास्ते कि भारत कठम्हाय वृद्धा कुरुपाय सुतामिमाम् देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम् आत्मन सुखासाय पुत्र्या संसारजम् सुखम् हरतेऽल्पमते पापौ जानन्नापि शुभाशुभम् प्राप्ता च मनम् सुभ्रो पञ्चबाणश्चर्जिता अन्नम् वृद्धं पतिम् प्राप्य कथं कालं नयिष्यति यौवने दुर् काम विशेषेण स्वरूपयाय आत्मतुल्यं पतिं कि प्राप्य किमु वृद्धं विलोचनम् गौतमं तापसं रूपय रूपाय यौवनसंयुताय हल्यावासवेनाचो वञ्चिता वरवर्णिने शता च पतिना ज्ञात्वा धर्मविपर्ययम्, विपर्ययम् तस्माद्भवतु मे नददामे न ददामि सुकन्यकाम् इति सञ्चिन्त्यमनः स्वगृहं ययो सचिवाचे समादाय मन्त्रं चक्रेति दुःखितः भोमन्त्रिणो गृहं सद्य किं कर्तव्यं मया अधुना पुत्री देयाथभिप्राय भोक्तव्यं दुःखमेव वा विचारयद्धं मिलिता इदं श्यान्नमवै कथं मन्त्रिण वचुः किं ब्रह्मोऽस्मिन् महाराज सङ्कटेति दुरासुरे दुर्भगाय सुकन्येषा कथं देयाति सुन्दरी तदा चिन्ता कुलं वीक्ष्य पितरम् मन्त्रिण सदाय सुकन्या त्वङ्गितं ज्ञात्वा चिन्ताभ्याकुलितेन्द्रियः मत्कृते दुःखसंवेदनो विषन् न वदनोति वै अहं गत्वा मुनिं तत्र समाश्वास्य भयादितं करिष्यामि प्रसन्नं तम् आत्मदानेन वैपितः इति राजा क्वचत्वा भाषितम् यत् सुकन्ययाम्वाच प्रसन्नात्मा सचिवानां च शृण्वताम् कथं पुत्रे त्वमन्दस्य परिचर्य मनैरबरः करिष्यचि जरा तस्य क्रोधनस्य विशेषतः कथं मन्धाय चारेण रूपेण धरति सन्निभां ददामि जरय ग्रस्थ देहाय सुखवाञ्छया पित्रापुत्रे पुत्रे दातव्या वयोध्याति वराय च धनधान्य समृद्धाय नाधनाय कदाचन क्वते च रूपं विचाराक्षि पाचो वृद्धो वनेचरः कथं देया मया पुत्री तस्मै नासि वराय च उटजे नियतं वासौ यस्य नित्यं मनोहरे कथं नजपत्राक्षि कल्पनीयो मया तव मरणं मे वरं प्राप्तं सैनिकानां तथैव च न रोचते पिकभाजिणि भवितव्यं भवत्येव दैर्यं नैव त्यजाम्य त्यजाम्यहम् सुस्थिर भवजोश्रोणि न दास्यन्धाय करेचित् राजन् तिष्ठतु वा यातु देहोऽयं च तथैव मे तस्मै नेत्र सुकन्या तं तदा प्राहे श्रुत्वा तद्वचनं पितुः तदन्न वदनाति वै न युक्तमिदं वचः सुकन्यावाच न मे चिन्ता पित देहि मां ये धुना सुखं भवतु सर्वेषां लोकान्नं मत्कृते न हि पतिं पावनम् भक्त्या परमया चापि वृद्धं च विजने वने सति धर्मे पराचारम् चरिष्यामि सुसम्मतम् भोगेच्छातिमेता स्वस्थं चित्तम् अमानय तच्छ्रुत्वा भाषितं तस्य मन्त्रिणो विस्मयम् गतः राजा च प्रीतो जगाम्भे मुनिसन्निधौ गत्वा प्रणम्य चिरतः तमुचे तपोधनं स्वामिन् गृहान् पुत्रीं मे सेवा इत्युक्त्वा सुदरो पुत्रीं विवाहे विधिनाम् रूप्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् पार्हि बरहं न दीयमानं नृपेण कन्यामेव गृहे कामं परिचर्यात्मनः सैनिकानां सुखं तदा राज्ञस्य परमाह्लादः सञ्जात तत्क्षणादपि तत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति मतिं चकारी तदोवाचे नृपं सुताय सुकन्या उवाच ग्राणे मम वासासि भूषणानि च मे पितःकलं परिधानाय प्रयच्छमम् वेषं तु मुनिपत्नीनां कृत्वा तपसि करिष्यामि तथा यथा ते कीर्त्यच्युतये भविष्यति भुवः पृष्ठे तथा स रसातले परलोक सुखायाहम् चरिष्यामि दिवानिशं। दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतिं तु मां चिन्ता त्वया न कर्तव्या शीलनाश समुद्भव अरुन्धति वसिष्ठस्य धर्मपत्नी यथा भुवि तथैव भविष्यामि नात्र कार्या विचारणा अनसूया यथा साध्वी बाल्यात्रे प्रसिता भुवि तथैवाहं भविष्यामि पुत्री केचिगरी तव सुकन्या वचनं श्रुत्वा राजा परमधर्मवित् तत्त्वारिजिनम् रुरो राशु वीक्षतां चारुहासिनीम् त्यक्ता मुनिवेचे वासंसि मुनिवेश धरां सुताम् विवर्णयवदतो भूत्वा स्थित तत्रैव पार्थिवः राज्ञः सर्वा सुताम् दृष्ट्वा वर्कलजिनधारिणीम् रुदुर्भृशोका वेपमाना सामापृच्छ महे पालो मन्त्रिभिः परिवारितः ययो स्वनगरं राजम् मुक्त्वा पुत्रीं सुचार्पिताम् इति श्रीमद्देवी भागवते महापुराणे अष्टादश शास्त्रासंहितायाम् सप्तमस्कन्धे चवनसु कन्ययो वर्णनं नाम तृतीयोऽध्यायः श्री जगदम्बिकायै नमृ